बृहदारण्योपनिषत् फ्रं शुक्लयजुर्वेदब्राह्मणं शान्तिपाठम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यदे ॐ शान्तिश्शान्तिश्शान्तिः अध्यायं वन् ब्राह्मणं वन् ॐ उषा वा अश्वस्य मेध्यस्य शिरसूर्यश्चक्षुर्वादः प्राणो व्यातमग्नेर्वैश्वानरसंवत्सर आत्माश्वस्य मेध्यस्य द्यःपृष्टमन्तरिक्षमुदरं पृथिवी वाजस्यन्दिश्यपार्श्वे अवान्तरदिश्य पर्शव ऋतवोऽगानि मासाश्चार्थमासाश्च पर्वाण्यहोरात्राणि प्रदिष्टा नक्षत्राण्यस्तीनि नभो मा गं सान्युवद्यगं सिगदा सिन्धवो कुदा यकृच्चो पर्वदा ओषधयश्च वनस्पतयश्च लोमान्युध्यन् पूर्वार्थो निम्लोचखनार्थो यद्विजृम्भदे तद्विद्योत यद्विधूनुते तस्थनयदि यन्मेहदि तद्वर्षदि भागेवास्य वाक् अहर्वा अश्वं पुरुस्तान्महिमान्वजायत तस्य पूर्वे समुद्रे योनि रात्रिरेणं पश्चान्महिमान्वजायत तस्या परे समुद्रे योनि रेदौ वा अश्वं महिमानावभिदत्सं बभूवधुर्हयो भूत्वा देवान् वहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान्समुद्र एवास्य बन्धुस्समुद्रो योनिः विधि प्रथमोऽध्याये प्रथमं ब्राह्मणम् अध्यायं वन् ब्राह्मणं टु नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमावृतमासीद्दशनायया शना याहि मृत्युस्तन्मनो कुरुदात्मन्वीष्यामिति सोऽर्चन् चरत्तस्यार्चत आभोजायन्तार्चते वै कमभूदिदि तदेवार्कस्यार्कत्वं कगं हवाक् अस्मै भवदीय एवमेदर्कस्यार्कत्वं वेद आपो वा अर्कस्तद्यदभागं शर आसीत्तत्समहन्यदशा पृथिव्या भवत्तस्यामश्राम्यत्तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः सत्रेद्यात्मानं व्यगुरुदादित्यं तृतीयं वायुन् तृतीयगुंस एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक्षिरोऽसौ चासौ चेर्मा वधास्य प्रतीचि दिक्पुच्छमसौ चासौ च सख्यौ दक्षिणा चोदचीजपार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स येषोऽप्सुप्रतिष्ठितो यत्र क्वचैति तदेव प्रदितिष्ठत्येवं विद्वान् शोकामयदद्वितीयो महात्मा जायेतेदि समनसा वाजं मिथुनघं समभवदशनाय मृत्योस्तद्यद्रेद आसीत् स संवत्सरो संवत्सर आसस्तमेता वन्दं कालमभिभर्यावान् संवत्सरस्तमेता वधकालस्य परस्तादसृजदतञ्जादमभिव्या दधात्स भाणकरोत्सैव वाग भवत् स ऐक्षद यदि वा इममभिमग्स्ये कनीयोन्नं करिष्य यदि सतया वाचा तेनात्मने दगं सर्वमसृजद यदि दङ्गिञ्चर्च यजोगुंसि सामानि चन्दगुंसि यज्ञान् प्रजाः पश्यन्स यद्यदेवासृजद तत्तदत्तुमध्रियद सर्वं वा अतिदि तदधिते रदि त्वं सर्वस्यै तस्यात्ता भवति सर्वमस्यान्नं भवति य एव मे ददधिते रदित्वं वेद शोकामयदमेध्यं म यदग् स्यादात् मन्व्यने न स्यामिति तदोऽ समभवद्यदश्वतन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वमेष ह अश्वमेधं वेदय येनमेवं वेदतमनवरुध्यैवा मन्यद स्तगं परस्तादात्मन आलभद पशोन् देवताभ्यः प्रत्यौपतस्मात् सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा अश्वमेधो संवत्सर आत्मायमग्निरर्कस्तस्ये मे लोका आत्मनस्तावेदा वर्काश्वमेधौ सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युञ्जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासान् देवतानामेको भवति इति प्रथमोऽध्याये द्वितीयं ब्राह्मणम् अध्यायं वन् ब्राह्मणं त्रि द्वयाः प्राजापत्या देवाश्चासुराश्व ततः कनीयसा देवदेवा जयसा असुरास्त येषु लोकेष्वस्पर्धन्त तेहदेवा ऊचुर्हन्त सुरान्यज्ञ उद्गीधे नात्ययामेति ते कवाचमूचुस्त्वन्न उद्गायेदि तदेदि तेभ्यो वाजिभोगस्तन् देवेभ्य आगायद्यत्कल्याणं वदति तदात्मने ते विदुरत्नेन वै न मभिद्रुत्य पाप्मना विध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं वदति स येव प्राणमोचुस्त्वन्न उद्गायेदि तदेदि भोगस्तन् देवेभ्य आगायद्यत्कल्याणं जिघ्रदि तदात्मने ते विदुरनेन वैन उद्घात्रात्येष्यन्तीति तमभिध्रुत्य पाप्मना विध्यन् यदे वेदमप्रतिरूपं जिघ्रधि स एव स पाप्मा अधः चक्षुरुचुस्त्वन्न उद्गायेदि तथेदि तेभ्यश्चक्षुरुदघायद्यश्चक्षुषि भोगस्तन्देभ्य आगा यद्यत्कल्याणं पश्यति तदात्मने विदुरनेन वैन उद्गात्रात्येष्यन्तीदि तमभिध्रुत्य पाप्मना विध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति अधः श्रोत्रमूचुस्त्वन्न उद्गायेदि तदेति तेभ्य श्रोत्र मुदगायद्य श्रोत्रे भोगस्थन् देवेभ्य आगायद्यत्कल्याणगं शृणोति तदात्मने ते विदुलनेन वैन उद्गात्रात्येष्यन्तीति तमभिधृत्य पाप्मना यः स पाप्मा यदेवेदमप्रदि रूपगं शृणो अधः मन ऊचुस्त्वन्न उद्गायेदि तथेदि मन उदगायद्भ्यो मनसि उदगा भोगस्तन्देभ्य आगायद्यत् कल्याणगं सङ्कल्प यदि तदात्मने ते विदुरनेन वै न यदे वेदमप्रतिरूपकं सङ्कल्प यदि पाप्मैवमुखल्वेदा देवदाः पाप्मभिरूपा सृजन्नेव मे नाः पाप्मना विध्यन् अध हेममासन्यं प्राणमोचुस्त्वन्न उद्गायेदि तदेदि तेभ्य प्राण उद्गायते विदुरनेन वैन उद्घात्रा तमभिद्रुत्यपाप्मना विव्यत्सं लोष्ठो विध्वगं सेदैवगं हैव विध्वगं समाना विश्वं चो विनेश्युस्तदो परा भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवदीय एवं वेद ते हो जुक्वनुसोभूद्यो न युद्धमसप्तेत्ययमास्येन्दरिति सो यास्य आङ्गिरसोऽङ्गानागुंहिरसः सा वा एषा देवता दोर्नाम दूरगृह्यस्या दूर अस्मान अस्मान् मृत्युर्भवदीय एवं वेद सा वा देवदैतासान् देवतानां पाप्मानं मृत्युमपहत्य यत्रासान् दिशा मन्तस्तद्रमयाञ्चकार तदा सां पाप्मनो विन्य दा तस्मान्न जनमियान्नान्दमियान्नेत्पाप्मानं मृ युमन्ववायानीति सा वायेषा देवतैतासान्देवतानां पाप्मानं मृत्युमपहत्या धैना मृत्युमत्यवसद स वाचमेव वा प्रथमा मत्य वहत्स यदा मृत्युमत्यमुच्यदशोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमधिक्रान्तो दीप्यते अधः प्राणमत्य यदा मृत्युमत्यमुच्यदश वायुरभवत् सोऽयम् वायुपरण मृत्युमक्रांद पवदे अतचक्षुरव तुमुच्य दस आदिभवत्सो सादिपरण मृत्युमक्रास्तपति अध श्रोत्रमत्य वहत्तद्यदा मृत्युमत्यमुच्य तथा दिशो भगवगृस्ता इमा दिशः परेण मृत्युमधिक्रान्ताः अधमनोत्यवहत्तद्यदा मृत्युमत्यमुच्यतस चन्द्रमा अभवत्सोऽसौ चन्द्रः परेण मृत्युमधिक्रान्तो भात्येवगुंहवा येन मेषा देवता मृत्युमधिवसदिय एवं वेद अधात्मने नाद्य मा मागा मध्यतेनेनैव तदद्यद इह प्रदितिष्ठति ते देवा अब्रुवन्नेदावध्वा इदघं सर्वैयदन्नं तदात्मन आगासिरनुनोऽस्मिन्न आ भजस्वेदिते वै माभि संविशतेधि तदेधि तगुंसमन्दं परिण्यविशन्त तस्माद्यतनेनान्नमस्ति तेनैतास्तृप्यन्त्येव गुंहवा येन घ् स्वा अभिसंविशन्ति हर्ता स्वानाग्श्रेष्ठः पुर एता भवत्यन्नादोधि पदिर्य वेदय उहैवं विदग्धस्वेषु प्रदिप्रदिर्बुभूषदि न हैवालं भार्येभ्यो भवत्यधय ये वैदमनुभवदि यो वैदमनुभार्यान् बुभूर्षदि स हैवालम् भार्येभ्यो भवति सोयास्य आङ्गिरसोऽङ्गानागं हि रसः प्राणो वा अङ्गानागं रसः प्राणो हि वा अङ्गानागं रसस्तस्माद्यस्मात् <त्रों> कस्माच्चाङ्गात् प्राण उत्क्रामदि तदेव तत् चुष्यत्येष हिवा अङ्गानागुं रसः एष उ एव बृहस्पतिर्वाग्वै बृहदि तस्य एषपदिस्तस्मादु बृहस्पतिः एष उ एव ब्रह्मणस्पदिर्वाग्वै ब्रह्म तस्य एषपदिस्मादु ब्रह्मणस्पदिः येष उ एव सामवाग् सामैष सा चामश्चेदि तत्सां न सामत्वयि यद्वेव समःप्लुषिणा नसा समो मशगेन समो नागेन सम येभिस्त्रिभिर्लोकै समो नेन सर्वेण तस्माद्वेव सामाश्नुदे साम्नसायुज्यगं स लोकदाय्य एव मे उवा उद्गीदः प्रणो वा उत्प्राणेन हीदगुं सर्वमुत्तधं वागेव गीधोच्च गीधा दिस दिश तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नु वाचा यन्त्यस्य राजा मूर्धानं विपातय ताद्यतितो यास्य आङ्गिरसोऽन्येनोदगायदिति वाचा चक्ष्ये वस चोदगायदिति तस्य हैतस्य साम्ना वाचा स्वरसम्पन्नयात्विज्यङ्कुर्यात्तस्माद्यज्ञे स्वरवन्दन् दिदृक्षन्दयेधो यस्य स्वं भवति भवति हास्यस्वय एवमेदस्साम्न स्वं वेद तस्य हैदस्य साम्नो यः सुवर्णन्दस्य वैश्वर एव सुवर्णं भवति हास्य सुवर्णय्य एव मेदः साम्नः सुवर्णं वेद तस्य हैतस्य साम्नो यः प्रतिष्ठां वेदप्रदिह तिष्ठति तस्य वै वागेव प्रतिष्ठा वाचिः खल्वेष एतत्प्राणः प्रतिष्ठितो गीयतेन्न इत्युहैक आहुः अथादः पवमानानामेवाभ्याजोहः स वै खलु प्रस्तोदासामप्रस्तौ यत्र प्रस्तुयात्तदेतानि जपे दसतो सद्गमयतमसो माज्योदीर्गमय मृत्योर्मा मृदङ्गमयेदि स यदाः सदो मा सद्गमयेदि मृत्योर्वा असत्सद मृदं मृत्योर्मा मृदङ्गमया मृदं मा कुर्वित्ये वै तदाहतमसो मा ज्योतिर्गमयेदि मृत्योर्वै तमो ज्योतिरमृदं मृत्योर्मा मृदं गमयामृदं मा कुर्विद्य वै तदाह मृत्योर्मा मृदं गमयेदि नात्र तिरोहितमिवासिथ यानि णि स्तोत्राणि तेष्वात्मनेनाद्यमागा ये तस्मादु तेषु वरं वृणीतयं कामं कामयेद तगुंस एष एवं विदुद्गादात्मने वा यजमानाय वायं कामं कामयदे तमागायदि तद्वै तल्लोकजि देवन हैवा लोक्यताया आशास्त्रीय एवमे दत्सामवेद इति प्रथमोऽध्याये तृतीयं ब्राह्मणम्